विश्वा अग्नेभेदोऽभिषप्ता शत्रोजतामाफलाभोजनानि अग्ने शर्धमहते सौभगाय तवद्युम्नान्युत्तमानि सन्तो सञ्जागम् सजममागमश्वा शत्रोजताभिष्यामहां अग्नेयोजनः सागस्तमृद्राञ्जले स्वभ्यमाभराष्टः युग्मस्यैव प्रक्षागतः मातस्योच्छेदकिञ्चनविज्ञातवीर्यः रुद्रः पुरुचेतनः अप्रादेन्द्रविश्वाकम् अमित्रान् अपापादोभिभूतेन तस्मात् अपोदीतौ अपशोराधरादभूरौ यथातवशम् मन्मतेन तमिन्द्रम् वारयामते महे वृक्षायहन्तरक्षम्भ्याम्ब्रह्मानवस्तुष्टास्तु महि इन्द्रो वृत्तान्यपदेवानवाहम् पदनाम् यो लक्ष्णम् लेतम् परन्ध्यम् अग्निर्गस्पृष्टगतमाभुवेम सृष्टमग्ने अभिजत्मना हि विश्वालेपदनाविश्या पुरुणः पन्थाहिनाय वामग्ने हविष्पन्तः देवम् मत्ता धरीडते मन्ये जागवेदम् सह व्यापक्ष्या नृषे विश्वानिनो दुर्गः जागवेदः सिन्धर्णनामादिवर्णे अज्ञे अद्यवन्मनसा ज्ञानः अस्माकम् भवद्भ्यपितातनूनाः ऊषागान्वेतुनः ऊषागक्षत्रवदः ऊषावाजगुंस नोदनः ओषे मा आशा अनुवेदसर्वाः सोऽस्माकमभयतमेन नैषत् स्वस्थिताघृणः सर्ववीरः अग्ने अग्ने म् वितन्मदे अग्नेरक्षाकंसिक्रदोत्यः अग्नेरक्षा नोपदः हृदिष्पदेभरे अग्नेहकंसज्ञत्रिणम् देद्यन्मध्येष्व स्वरेक्षरेव्रत आपातवाहिभेषजम् विवाकवाहिर्द्रवःश्वभे देवानाम् दूषीयसे द्वायो वातो वातः आसिन्धोरापरापदः लक्ष्यम् मे अन्यः वादौ परा अन्यो वाद्रपः यतो वाचदेघ्ये अमुदस्य प्रणायो पूंसितारिषते त्वमग्ने अयासि अयासम्मनसाहिदः अयातन हव्यमोचे अयानो अज्ञणाभुतः साहातः कामोभूतस्य भव्यस्य सम्राटे को विराजते स इदम् प्रतिवसेत्सृजते कामस्तदग्रेध्वमर्थे मनसो हरेतप्रथम्यदा ेष्या कवयो मनेशा, त्वया मन्यो सरसमाभिदन्तः हरिषमानासो धृतामरुत्पः विग्नेशवाविधानाः अग्निलोपाः मन्यर्भगमन्यदेवासुदेवः मन्युभवतावरुणाश्वणाः मन्यम् विषयेषयम् देयेः दे पाहिनो मन्यो तपसाश्रमेण ताज्ञया तपच्युतेः देवागुम् आसादया इया अग्ने हव्यायवोषदे वृतानुबिभ्रत्पदपादाभ्यः निजानो देवागुम् अजरस्वीरः अर्णे गोपायनो जागते जातवेदः चक्षुषो हेते मनसो हेते वाचो हेते ब्रह्मणो हेते योमाकागरभिनाशे ते मेण्यामेणो योमा चक्षुषा यो मनसा ष्टादाहुदे करोति तन्मिदेहम् कतम् भवेत् योमेहोनवजीकृतः अपाञ्जौभो बाहु अपणह्याम् व्यास्यम् अपणह्यामिदेव अपणह्याम् व्यास्यम् अग्नेयर्देवस्य ब्रह्मणा सर्वम् देवजयम् कृतम् पुरामृश्यवशत्कारात् दे, यज्ञेषु स्थिते सृष्टमस्माकम् भूयात् मास्मान् अन्तितो भ्रातुर्यभिलाषुरः प्रकालेण वज्रेण कृत्यागृम्हन्य गतामहम् यो मान्यासायम् प्रातश्चान्धो अद्यादिन्द्रवज्रेण भ्रातुर्यम् वादयामसि इन्द्रस्य गृहोभिषन्ता प्रद्यश्वः सायम् अग्निपश्चिदम् इरायज्ञस्य सृष्टिवानम् सितावानम् अज्ञे षगेमदेवयम् यमम् देवस्य वादिनः तदिद्वेषांसितलेम अवदम् मासमनसौ समावसौ सजेरसौ तलेनसौ भौ मापवदञ्जातवेरसौ शिवौ भवदमद्यनः स्वयम् त्वन्नस्तनेपन्थाफले वयानः प्रजाःग्ने पृष्ठम् वयमारुहेम अथा देवैः समाजम् मदेम उदत्तमम् मुग्धिनः विवाहम् मध्यमञ्चत अवासमानि जीवसेः वयपुंसाम प्रदे प्रजावन्तव धीमहि इन्द्राणी देवी सुभगासुपत्नीःपुंसेन पतिविद्येतिकाय त्याघन योजनानि दे देवी प्रासहादो देवीच्छतो आत्माहारषमन्तरभोः ध्रुवश्रष्टाविदास्ता सर्वा वाञ्छन्तो मात्म्रात्मध्रुवाद्यौर्ध्रुवा ध्रुवम् विश्वमिदम् जगत् ध्रुवाः पर्वतादिमे ध्रुवो राजाभिषामयम् एमाव्यसिष्ठाः पर्वदैवाभिचारुलिः इन्द्रमश्रेष्ठा विषयाश्वमुण अभिशिष्ठपदन्यदः अधरे इन्द्रयोत्रहातिष्ठा अपःक्षेत्राणि सञ्जयन् इन्द्रयेण मदीधरत् ध्रुवम् ध्रुवेण अभिषाः तस्मै देवाभिभ्रमन् अयम् च ब्रह्मणस्पतिः ब्रह्मणावस्पितना यच्छक्पदार्वाजिने मधी यज्ञम् वष्टधियावतोस्य पापस्परेणसङ्ख्यावेश्या च मा क्षेत्राण्यञ्जयौवर्भिः अन्यक्षा अश्वायज्ञस्य केवलः अर्वाञ्चमिन्द्रमनुगोविद्धनविनश्वज्ञः इमन्नो यज्ञम् विहवेऽपि तस्य अस्य कम्माहरिव मेधिनन्ता कथम् मृष्टो जायते मातृमोश्रुतिः अन्तःकविष्टौ विवस्पदः कृतेन त्वाद्धयम् नग्नाहुताश्रदः अग्निरग्ने प्रथमो देवतानाम् सञ्ज्ञातानामुत्तमो विष्णदाधेत्विरागच्छ तन्नः अग्न्यश्च विष्णो तथमोत्तमम् महः भ्यो मनतम् विचत्रा विश्वैदेवैर्ययै संविधानौ देक्षामस्मै यजमानाय सत्तम् तदद्यस्तव देवीर्याय मृगोणभिः कुतलोगरिष्ठाः यस्योषत्कृतविक्रमणे च अधिक्षयन्ति भुवनानि विश्वाः होमर्तोदयते स नश्यदयः विष्णमनुगाया यदा एतावन्तर्यमाविवादात् विचक्रमे पृथिवीमेषजेताम् क्षेत्रायविष्कर्मनुषे सन् ध्रुवाहो अस्य केरलवचनादः पुनक्षिमुंशनिमादकारः पृथिवी मेषजयताम् विचक्रमे शदत्तरम् महित्वारस्तरवतत्त्वबीजान् प्रेषग्यस्य शबिरस्य नाम होतारम् चित्ररथमर्धरस्य यज्ञस्य यज्ञस्य केतुकम् सन्तम् प्रत्यर्थ्यम् देवस्य देवस्य मह्ना श्रियात्मज्ञवतिरञ्जनानाम् विश्वाभिरवतिभिश्चाः ब्रह्मयुगा न हि मलेव हस्तेदशकं सुष्वमिन्द्र इन्द्रस्वपरिषादरेर्णहानि विकाजवधिनाभिः श्रीः भेदमह्ना अविन्दज्यवतिर्द्रहरेणाय अश्विनाभवजे विह्वयेनाय्याजगंसुकृताप्रा प्रातेन सुकृतारसेन उगागच्छदमसागदन्नः अविष्कन्धेष्वश्विना आसो प्रयावद्रेतो अक्षयम् नो अस्तु आवाहम् तु केतनलेतोजानाः सुरत्रासव देववीतिङ्गमेवंसो मतभिः सुतद्भोः दे� तम् दक्षैः सुदक्षो विश्ववेदाः दक्षाः अशालङ्क्युपदनाशर्णामस्य गोपाम् दर्शम् तन्त्रामनुमरे भवामिताः विभोदज्ञम् नगे वयापसप्रथाः अधा ते विष्णो विदुषा सोमो यज्ञस्य राभ्यो हविष्पतः यः पोनवेदेन दीयते समर्जान ये विष्णवेददा सति यो जातमस्य महतो हरिब्रवाहारे श्रेदश्रमोभिर्विज्यञ्जि लभ्यते कमस्तोतारः पोर्जञ्छस्य गर्भगम् हविरावर्तन आस्य जानम् इमाधानाशतृवः है शोकमक्षदः इन्द्रकम् सुगतमेरथे एतब्रह्मात्मदे महे रथेदकम्पेमन्वेदम्बलम् इन्द्रो नाम चरन्नयः हरिविष्टानुसेजते श्रोगणात्वा विशन्तो हरिवर्पसञ्ज्ञः आदर्शित्राविषभोजनानाम् राजाकृष्णीणाम् पुरुहूत इन्द्रः ुक्ताः एव आपस्व जग् अतश्चलिन्द्रस्तरसोपरीयां तनवाभवादे तदग् ज्ञम् तुभ्यम् भवन्त इन्दवः सुदासः रावो नवद्रेण् समो गो अच्च इन्द्रायः प्रथमो यज्ञयानात्सुकृताया वरिष्ठा र्मे गया पाहि प्रदे अध्वर्यलस्थाने सन्त्येव च अभिवाधया अश्विनालेहगच्छनम् अस्य सोमस्य पीतये रातर्यामाना प्रथमायजध्वम् पुरागर्धादर्शपि रातरिः यज्ञमश्विनाभाजः रातर्यजध्वमश्विनाहिनाद प्रसागमस्तिते वयाजुष्टम् उतान्यो अस्पद्यते अभितायः पूर्वः पूर्वो यमानो मलीयान् नक्तम् जाताश्चोर्थे रामे कृष्णे अधिष्ठदकुलम् पलितम् जयत् विलासम् च पलितम् च निमितो नाशयापृषत् तानस्व अश्रुनाम् वर्णः आस्था ओषधे निर्दो नाशिजा पिषत् अस्थिरस्य विलासस्य तनोजस्य जेत्वयागतस्य ब्रह्मणा माता स्वरूपो पिता स्वरूपाश्चोषधे सा स्वरूपमिदङ्कृते शुनकुम्भुरे अधवानविन्द्रम् अस्मिन्फले षण्मन्त्रमुग्रमोदये समत्सु ग्रन्थम् हृत्राणि सञ्चिदन्धनाम् भूमसत्याम् पर्वताम् दासु शेवसु वि मोमलादिकते यामनोभिया युधेन युद्धम् प्रवेपयन्ति पर्वतान् विविञ्चन्ति वनस्पतेन प्रोभारतपरतो मर्मदा इव समत्सुत्वा हवामहे समत्सर्गिमपते वाजन्तो हवामहे वाजेडुचारम् सङ्गच्छध्वकम् सम्बद्धम्भोमनागम् तिजानताम् देवाभागम् यथा पूर्वे सञ्जाना उपासना समानो मन्तः समिति समाने समानम् मनःसह चित्तमेधा समाने वाकोतिः समानाहृदयानिवः समानमस्तवमनः यथा वस्तुतः वस्त सति सञ्ज्ञानश्वेः सञ्ज्ञानमरणैः सञ्ज्ञानमश्विना युवम् मे बृहस्पतिः सञ्ज्ञानकुंसविदागरत् सञ्ज्ञानमश्विना युवम् इहमह्यम् नियच्छदम् उपच्छायापि बघृणेः अगन्मशर्मदे वयम् अग्ने हिरण्यसन्दृशः अदर्थेभिः सविदः पायभिष्पम् शिवेभिरव्यपरिपाहिनागयम् हिरण्यजक्ष्पस्सु पिताय नव्यसे करक्षामाकिर्माखशकुंसगीश मते मते हिनादुः रोधागवामजक्रदुः रङ्गभायपरोषदा भयाहस्त्यावसो शिशिखिरायाभिप्रजानाम् पदे शरीभस्तपदकुंसला आतोणे इन्द्रभाजया वो श्मस्मेण शुभ्रणु सहस्रेण तु वीमथ यद्देवादेव देवादस्य दे देवा कृमा वयम् आदित्यास्तस्माहन्मा यूयम् रः सर्तेण मुञ्चना रः सर्केण आदित्याः यज्ञेर्वो यज्ञमाह सह आशिक्षन्तो न अकामा वो विश्वे देवाः शिक्षन्तो नोपशे किम हे देवायुरेन एनस्योपरम् दे, भूतम् मातस्माद्भव्यम् च द्रुपदादिवमुञ्चतो द्रुपदादिवेण् चालः श्रृणस्नात्मलादिव भूतम् पवित्रे नैवाज्यम् विश्वे मन्यन्तु अगन्मज्ज्योतिरुत्तमम् पृषासुसप्पवदे हविष्मान् सोमः इन्द्रस्य भागदलिशतायुः कृणोत् प्रियम् विषाकम् सर्ववीरकम् सुवीरम् प्रणभोर्णदे वृत्रः सोमवेदये यत्पेशङ्गणपाठाय्यः यस्मिन् दध्रामनः प्रपुंसधे लोकयो कृष्णयाने भो गस्यानुलीलस्तुरीन्द्रम् समुद्रन्नराः अपःप्रेरयान्ध्रात् यो अक्षयणैव चक्रियाशैः पुष्पक्तस्तम्भपृथिवे मुद्याम् क्षामबुद्धम्बोधः पर्वतानाम् आनुर्गेषु केतुना रीम् विश्वायपोषसम् मार्भिकण्ठे जीवसे त्वगुंसामहेभगम् दक्षन्दसादिजीवसे रथयुञ्जते मरुणः शुभे सुखम् सोरो नमित्रावरुणागविष्पषो प्रजागुंसि चित्रा विचरन्ति तन्यवः दिवस्त्राजापयथानुवक्षतम् पाचपुंसुमित्रा मर्णामयावती पर्जन्यश्चित्राम्बतचित्रिषीमती अभ्रावशतमरुदस्व्याम्बर्षयदमर्णामलेपसम् अयुक्तसप्तवः सोरवर्धस्य नत्र्यः ताभिर्या विस्मयत्तुभिः श्रेष्ठद्भिहरणया शिरन्तम् अवगे न शिरन्दे वस्व प्रविन्धो रश्मयः सोल्यश्च धर्मे वा अप्सन्तः पर्जन्याय प्रकारिता दिवः पुत्रायुले स नायवसमिच्छनो अच्चावदनवसङ्गेऽर्भिराभिः श्रीपर्जन्यन्नमसाभिवास कनिक्रत्वम्भमौषधीनाम् गवाः गणोपदाम् पर्जन्यः पुरुषीणाम् तस्मादिहास्ये हविः द्योतामसुवत्तमम् इडाङ्गे धरस्वामिर शुजम् कृतेन सुजयः सन् नामानिरेयानि असूदयन्त्रशुनाधीरौ इमै यज्ञम्यमिक्षतम्बन्धत्तज्ञ स्पस्तके ययोरिदम् विश्वम् भुवनमा विमेष ययोरानन्दो लिखितो महश्च सुराधीरादुभः संविधानौ इन्द्रवन्तो हविरञ्जुषेथा आधाय अग्निविन्धते स्मृन्ति बहिरा विषये येषामिन्द्रो निवासखा अग्नेन्द्रश्च मेदिना अथो वृत्राण्यप्रति युवकंशुवृत्रहन्त याभ्याकंसु वर्जयन्नग्रजेव या वाकश्च दर्भुवनस्य मध्ये प्रदर्शणीकृषणा पुनः प्रिया प्रियासु सप्तस्वसा सुजुष्टा सरस्वती स्तोम्याभूत्त्वा नुष्पदानोऽस्तोमकम् सरस्वतिरस्व तव शर्मन् वृक्षम् विचक्रमे विष्णद्गोपादाभ्यः ततो धर्माणि धारयन् पदस्य प्रियम् हिमाचो अस्याम् वदन्ते पुरुक्रमस्य देव परमे मन्ध्व उत्सः कर्तादस्तु श्रेष्ठः अद्यतावन्वान् अर्तहाम् इमा ब्रह्मब्रम्भवाः प्रयासीरपुरोडाशम् वरसो नोगिरः छण्वन्तमदस्तगे स्मृटेका भवन्तु नः अद्यानो देवदुविरः े सौभगम् परादुष्मप्रयगम् सु विश्वाणिदेव समितः दुर्जाणि परा सु यद्भर्दन्तम् महासुव शुचिवर्गे बृहस्पतिम् अध्वरेषु नमस्त्य अनाम्यो चालये याता देवासुदक्षा दक्षपिताला अधुर्याय प्रमहसाडाबिन्वदे विस्पदानी तस्मै विलस्वयमेवानमन्ते यस्मिन् ब्रह्मराजनिभोर्भेदे सगोरिविन्द्रक्षतिम् सुरक्षुतम् जहलक्षति कणाकाभान्नाभरन्निव सख्यो विलेन्द्रमधोदये कनीभुनदिवसापयन् अविरः सुस्कृतिम् नया प्रजापतिस्त्रिया यदः मुष्कजोरथात्सवम् कामस्य दर्तिमानन्दम् तस्यादेव बोधप्रमोदानन्दः मयोगतस्रवः कामस्य द्रव्याणि दक्षिणानाम् परिग्रहे मनसश्चित्तमापूर्तिम् वारः सत्यमजीमहि पशोनागम् रूपमन्नस्य यश्रेश्वयताम्बि यथाहमस्यादृपगस्त्रिगैपुमान् यथा स्त्रीं प्रिया एवम्भगस्य द्रव्याणि तदामेत्यज्ञर्वदति तथेति वायुना हदते हन्ते सत्यम् चन्द्रमाः आदित्यः सत्यमोमिति आ वस्त्रत्सत्यमापरन् यतो ये लक्षिताम् असोमेकामः समर्थ्यताम् अन्यमस्मात् वैश्वानलात्मलेतारमग्नेः अथैव मन्थन्नमृतमूराः वैश्वानयम् प्रदित्यागदेवाः मे भोर्मे नर्मा सा सन् अयोपाः सद्मविभृतानरत्तः पृथिवीमन्यामभिरः स्वर्जनादः मातरम् महीम् अन्तरिक्षमुपब्रुवे बृहदे मोदयेदिवम् विश्वम् बिभर्ति पृथिली अन्तरिक्षम् विव प्रजेभ्यो न नैनामित्रोऽप्यधिजा देवाधिश्रयाभिर्गजते ददादि चोगित्ताभिस्रजते गोपनिः सह ददार्वारेणुपकारो अश्नुते असर्गस्तु तत्रो मर्त्यस्य विजरन्तिश्रयोभिना उपदेगादिवाकरम् त्रेऽस्त्वामञ्जयन्तुमजलयन्तदेवाः आम् विश्वरूपाः पशुपो वदन्ते सानो मन्त्रेणोर्जन् दुहाना धेनुर्वागस्वानुपशुस्पते यद्वाग्वदन्ती राष्ट्रिदेवानाह्यथा च मन्त्रा स्वतः सर्वोर्जन्द्विजहेपजागुंसि क्व स्तस्याः परमम् जगाम डोरीमाविसलिलानि रक्षते एकपदे द्विपदे सायुदष्पदे अष्टावदे नवपदे बहुविषे सहस्राः क्षरापरमे व्यवन् तस्यागम् समुद्राधिविक्षरन्ति येन जीवन्ति प्रतिशुरस्रः विश्वकर्मा भगत्वागुम् अस्तु गणवाहन् अस्य सुषा श्वशुरस्य प्रदृष्ट्यम् अपरत्र अवाजम् मनसा उपासताम् इन्द्रस्तो प्रकाशपत्नाशुरो नमस्तो हयम् शत्रो जय दुर्शनाः अयम् वाजम् जयदुवाकसाधौ अग्नेक्षत्रभदृष्ठमोजः श्रेयो देप्यतामप्रयच्छन् निरक्ष्यते दिव्यः कर्मण्यो हितो बृहन्नाम वृषभस्पयाष्णो भवतो वामको विषाः अथोदेवेभ्यः विभ्रवीरजनेभ्यः आयुष्पन्दम् वर्गस्पन्दम् अथो अधिपतिम् विषाम् अतो पृथिव्या अध्यक्षम् इममिन्द्रविषभङ्कणो यस्य शृङ्गस्वृषभः कल्याणोद्रोणाहितः कार्षीवनप्रकाणेन वृषभेण इजामहे वृषभेण इदमानाः अक्षूरेणैव सर्पियाः इन्द्रेण व्रतनाश्रयामसि यस्यायटभो भवे इन्द्राय वर्णीयते जयाति शत्रुहायन्तम् अतो हन्त्यपतनम् यतः न नामः प्रणेरसत् अर्गबुद्धिम् इन्द्रलक्ष्मम् तनुभामेरयस्व नीता विश्वाभिष्ठाभिमानीः पाषय्यो नो अस्ति पुरुणो लोकङ्गीरनाप्रेः प्रभरासहस्व मार्गेण विश्वाजने उदीरितोमैः इन्द्रशत्रोहम् पुरो अस्माकयुध्यात् अग्नेतात्पञ्जकात् शत्रोहम् सह समोचसा द्विशत्रो एतम् चे स्तोमन्त्रविदातविप्रः रतेरस्तपालक्षम् यदे प्रदृत्तम् देवहर्याः सुवर्णते रपेणादिरेनाभिमानितः इन्द्रेत्रायजज्ञरे स नः सङ्कासुपारयेषु च इन्द्रोजयाय पृथिवीम् अन्तरिक्षकंसुहर्मः इन्द्रोदिगायपदनानि विश्वाः इन्द्रो जातो विकुलो नरस्वावरिव कृणोत् अयम्भेदः विश्वज्यसोमः विषर्विप्रः काव्येन वाजुरग्रेगायज्ञेः साकम् जन्मसायज्ञम् शिवो येद्भिः शिवाभिः पाजो शुक्रो अयामिते मध्वो अग्रन्धिमिष्टिसु आयासोपीतके स्वारुभोदेव दीर्तता इममिन्द्रमध्यक्षत्रियाणाम् अयम् विषाम् विष्पतिरस्तु राजाः अश्वेकोषो मित्रो अस्य पशत्रस्य अस्मे वामम् अयम् राजापायासिया से सत्त्वार एकमषभ्यस्वाना अथो राजम् नत्तमम् मा नमाना उत्तरस्तमुदलय समत्ताः एकमषा इन्द्रसखान् त्रु गिरस्थ स्वारन्ति क्षितयोशर्मध्यागतो नुषीणाम् ब्रह्म ज्येष्ठा वेद्यासम्भृतानि ब्रह्माग्ने तस्य ब्रह्म प्रथमोदयज्ञेना ब्रह्मणा स्पर्धितुङ्गः ब्रह्मश्ररोणा स्वरोमिता ब्रह्मयज्ञस्तन्तवः यज्ञजोदेहविष्कृतः शृङ्गाणीवे शृङ्गिणाकम् सन्दर्शेवागुन्तः मावगात अभिभवर्दुण्ठेः मामहिष्टान् हस्मा समर्थान्नः ईशानम् आभुवनानामभिश्रयम् सुवीरं सौम्यग्मरुगदम् सुरीरम्नात्नवन्नवीयसा अर्जेद्युम्ने सञ्ज्ञा बृहत्पदम् सभानुनामग्नये दिवश्रेनायनम् वसोध्वनादिनः स्वारुभायस्य श्रयोध्ये हरिर्वेरमतो यथा अग्नेयज्ञस्य जयतः अदा अदात्पुरता अग्निर्विषान् मानुषीणाम्वः नवकुंसोमायवादिने आज्यम्बयसोदिने यत्तंसुजतमो नवकुंसोमजुरस्वनः हे योषस्येहदृप्णि यस्य भागरिता वयम् नमस्कसोमदे वयम् आसुमतिवृणेमहे राः नवकुम् भवेद्युडस्वनः रविः समभूतमम् ङ्गप्रतिहर्यनः राजन् सोमस्वस्तये न भग्नस्त्वमन्नवगम् हविः इन्द्राग्निभ्याम् निवेदया तद्भिषेता सुजग्नस्त्वमन्नवजातमद्य इन्द्राग्ने उभागुम् सुभवाजो हवेमि नावाजगम् सत्यम् सचेथेष्ठा अग्नेन्द्रो नवस्तनः अस्य हव्यस्य दुर्गलाम् ेवो सहस्त्रिणौ यन्नाहि गच्छताम् वसुमन्तम् सुमर्मितम् हस्त्रव्यस्य कृत्मिला अज्ञेन्द्रो नवस्कनः विश्वाम् देवादितर्पयत अविषमस्त्यनवस्त्यनः समर्पितमधिरगिरे दे एतम्बरिः सृष्टदि मानवेन अयम् यज्ञो यजमानस्य भागः अयम् बभो बभुवनस्य गर्भः विश्वे इमेण द्यावा पृथिवी समेचीः अन्वाणे यज्ञम् प्रवेशसन्ध्य आत्मे प्रणेताम् भुवनाय विश्वाः प्रजाम् पुष्ण्यमतम् नवेन इमे धेनो अमदये दुभातेः हयस्पत्युत्तरामेध पुष्टिः इमैयज्ञम् जसमाने नवेन समेधेद्या वा पृथिवीधृताजीः यविष्ठाः व्यवाहनः चित्रभानघृताशुधिः नवजातो विरोचते ेवताभ्यः भागे ते मनमीयसे श्रेनाविद्वान् यक्षे न भग्सो मन्युषस्वनः अग्नः पथमष्टाश्नात् यथा हरिः शिवास्मभ्यमोषधीः प्रणोजविश्वदर्शणिः भद्रान्नश्रेयः समनेष्टदेवाः प्रयापथेन संश्रीमहित्वा शनोमयोः पितवानुशस्व शन्तो अकारकलवे स्योनः एतमद्रम् मधुनादय्यदैवम् सरस्वत्यादिमनाविलकृदो इन्द्रादेशेन परिश्रयकृदः केनाशादस्वदानवः हो